गणेशपुराणम् उपासनाखण्डम् अध्यायं फिफ्टि त्रि हिमवानुवाच इदानीं कथयिष्यामि राज्ञा चन्द्राङ्गदेन च सपत्न्या च कृतं ह्येदीन्दुमत्या शुभानने मालेव विषये नगरं कर्णनामकम् तत्र चन्द्राङ्गदो राजा पराक्रमी अनिमादि बभूवादिपराक्रमी अणिमादिगुणोपेदसर्वशास्त्रार्थतत्त्वविद यज्वादानी महाज्ञानी वेदवेदाङ्गपारगः अधिक्रान्तासभायस्य सुधर्मामधिमानुषीं मुष्णादि चक्षुषस्तेजो रविकान्तमरीचिभिः अधिस्वच्छा निवासांसि रत्नस्तम्भाश्रयात् सुते नीललोहितपीधत्वाच्चित्रता यान्तिकानिचिद अधिसाध्वीमहाभागपदिशुश्रूषणे रता धर्मशीलाव्रतपरा श्वश्रुश्वशुरसेवनी गृहकृत्येषु चाव्यग्रा देवता तिथिपूजका नाम्ना सर्वावयवसुन्दरा धर्मशीलोऽपि नृपदि रमात्यै प्रार्थिदो भृष्यम् जीवहिंसां महाघोरां पापार्थिं परिवर्जय कदाचिद्दैवयोगेन मृगया क्रीडितुं ययौ तरक्षरुरुवाराः मृगपक्षियुदं वनं नीलकञ्चुकसंविदो नीलोष्णीशोत्तरच्छदः बद्ध गोधाङ्गुलित्राणशस्त्रिका खड्गखेडवान् जवेनाश्वसमारूढो शरचापकरो बली तादृश्यैर्वीरनिकरैरमाख्यै सेवकैर्वृतः निघ्नन्मृगान् वराहांश्च प्रेषयन्नगरं प्रति भ्रममाणो वने राजा तिष्ठो राक्षसपुङ्गवैः च राक्षसान् दृष्ट्वा शीतज्ज्वरयुधो यथा दरीमुकान गर्तनेत्रान् व्याधिदास्यान्नभःस्पृशः दृष्ट्वा तान् विद्रुताः सर्वे वीरासेविजना वी अपि के जिद्यमक्षयं व्यादा मूर्च्छिधा केऽपि भू गताः तत्रैकाराक्षसी क्रूरा दृष्ट्वा कामादिसुन्दरं तं नृपं परिरम्भ्यैव चुचुम्बे काममोहिता तस्या भगे कृत्वा भक्षयामास सेवकान् एतस्मिन्नन्तरे राजा पलायनपरो ययौ कासारमध्ये मग्नो भून्नाद्राक्षीद्राक्षसी चदं सधृतो नागकन्याभिर्नीतः पादालमन्दिरं भूषितो नागकन्याभिर्वस्त्रालङ्कारभूषणैः पप् प्रचुर्नागकन्यास्तं कुत आगमनं तव कोशि कस्यासि किं नरोत्तम इति श्रुत्वा ता जगाद नराधिपः अहं चन्द्राङ्गदो नाम हेमाङ्गदसुदो बली मालवे विषये कर्णनगरे वसतिर्मम राक्षसी भयवित्रस्तः प्रविष्टः सलिलं महद भवतीभिरिहानिदो यत्पृष्ठं तन्निवेदिदुम् भक्षिता सर्वलोकामे मे मृगयाभिरतस्यः सरोज्जलप्रसादेन जीवं तिष्ठामि साम्प्रतम् इति तव वचनं श्रुत्वा पुनरुचिर्नृपं तदा तावूचुः भवास्माकं पदिरिह सर्वं सेत्स्यदि ते प्रियम् अस्माकं नागकन्यानां भोगश्चादीव दुर्लभः तासामि दिव च श्रुत्वा प्रोवाच नृपसत्तमः यकपत्नीव्रतं मेऽस्ति मातरस्तत्कथं त्यजे सोमवंशप्रसूतानां राज्ञां धर्मान् ब्रवीमि परद्रव्यं परद्रोहं परदारां च परनिन्दां च नेच्छन्ति नृपाः सौम्याश्च साधवः अधीतिर्यजनं दानं शरणागतपालनं निषिद्धाचरणं नैव विध्यर्थं प्रतिपालनं ये धर्मात्रिवर्णानां याजनादित्रयं द्विजे अधिकं सर्ववर्णानामादिध्यं परमं मदं यदि श्रुत्वा नृपवचोऽखिला नागकुमारिकाः प्रसे पुस्तं वियुक्तस्त्वं बहुधा स्वस्त्रिया भव बबन्धुर्निगडायस्त दुःखिता कामविक्वलाः राक्षसी तु जलम् प्राश्य तदर्थे तत्सरोगतम् भक्षयित्वा जलचरान्नातृव्यपरमं तदा इमं वृत्तान्तमश्रुणो द्राज्ञिराजीवलोचना पर्यङ्कस्ताः स्वदूतात् सा भग्नं निशम्य नृपदिं दुःखिदापदिदा भुवि मूर्च्छामवापमहदीं सखीभिः परिव्रीजिता सिक्ता शीतलतोयेन रुदन्तीभिर्मुहुर्मुहुः उपविष्टा प्ररुददिघ्नन्ति वक्षः शिरोमुखं शुशोच परमालापैर्भर्तकान्तेदिजल्पदी क्व गधप्रणनाथो मे प्राणनाधोमे, मां प्रियवादिनीं सर्वा वयवसम्पूर्णा प्रणदां प्रियकारिणीं भर्तृकाजरदां नित्यं नित्यं चाधिपूजिका कुत्र भोक्ष्यति मे नाथो निद्रां वा कुत्र यास्यदि काञ्चनं चयनं हित्वा परार्क्यास्तरणायुर्वृधं कथं स्नास्यदि कान्दो हित्वा तैलं सुगन्धिकं योगानां पालनं कोद्य विनादेन करिष्यति प्रजानां सर्वलोकानां बालानां रञ्जनं च कः गुणनिधिप्रताप निधिरद्य किं प्रपश्यामि विना तेन महात्मना क्वाकं सुखं प्रपश्यामि क्व सुखं सोऽपि इह लोके परे वापि सुखं कुलयोषितां हीनानां स्वामिनां देव यदेतत्स्वामिना सह शरणागतगुप्तिञ्च दीनानां कक् करिष्यति एवं दी, बहुविधं दीना दी, तत्या वृशविह्वला तत्याजत्रोडयित्वा सा भूषणानि च दूरतः कङ्कणानि च सर्वाणि बभञ्ज च मुमूर्च च इति श्रीगणेशपुराणे उपासनाखण्डे चन्द्राङ्गदोपाख्याने त्रिपञ्चाशत्तमोऽध्यायः ओ